अथ त्रयोदशम् दशकम् हिरण्याक्षम् तावद्वरद भवदन्वेषणपरम् चरन्तम् साम्वर्ते पयसि निज परिमिते भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः शनैरूचे नन्दन् दनुजमपि निन्दम्स्तव बलम् स मायावी विष्णुर्हरति भवदीयाम् वसुमतीम् प्रभो कष्टम् कष्टम् किमिति तेनाभिगदितः न दन् क्वासौ क्वासाविति स मुनिना दर्शितपथो भवन्तम् सम्प्रापद्धरणिधरमुद्यन्तमुदकात् अहो आरण्योऽयम् मृग इति हसन्तम् बहुतरैर्दुरुक्तैर्विध्यन्तम् दिति सुतमवज्ञाय भगवन् महीम् दृष्ट्वा दंष्ट्रा शिरसि चकिताम् स्वे नमः सा पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ गदा पाणौ दैत्ये त्वमपि हि गृहीतोन्नत गदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता गटा णालोकौत्सुक्यान्मिळति सुरसङ्घे द्रुतममुम् निरुन्ध्याः प्रथममिति धात्रा जगदिषे गदोन्मर्दे तस्मिंस्तव खलु गदायाम् दिति भुवो गदाघाताद् भूमौ झटिति पतितायामहः भोः मृदु स्मेरास्यस्त्वम् दनुजकुलनिर्मूलनचणम् स्मृत्वा करभुवि दधानोरुचिषे ततः शूलम् दैत्ये विसृजति त्वयि छिन्दत्येन करगलित चक्र प्रहरण सुरष्टो मुष्ट्या सखलु विदंस्तागणन मए मयास्य किल जगन्मोहनक्र ज्योतिषकणलविपतेन विधुते तयाचक्रे वितत घन रोषा धमनस गिष्ठा मुुष्टि प्रहृतिरिघन स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधीहि महाकायः सोऽयम् तव चरणपातप्रमथितो गलद्रक्तो वक्त्रादपतत् ऋषिभिः श्लाघितहतिः तदा त्वा मुद्दामप्रमदभर विद्योतिहृदयाः क्वचिच्छन्दो रोमस्वपि कुशगणश्चक्षुषिघृतम् चतुर्होतारोऽङ्घ्रौ सृगपि वदने चोदरयिडा ग्रहाजिह्वायाम् ते परपुरुषकर्णे च चमसा विभो सोमो वीर्यम् वरदगळदेशेऽप्युपसदः मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमनाः महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् स्वधिष्ण्यम् सम्प्राप्तः सुखरस विहारी मधुरिपो निरुन्ध्यारोगम् मे सकलमपि वातालयपते इति त्रयोदशम् दशकम्